मुद्गलपुराणं खण्डम् एय्ट् धूम्रवर्णचरितम् अध्यायं 33, त्रि श्रावणमासमाहात्म्यवर्णनं श्रीगणेशाय सूत उवाच गणेशप्राप्तिकामार्थं गालवो मुनिषत्तमं पुनः पप्रच्चसद्बुद्धेर् विनयेन द्विजोत्तमः गालव उवाच द्रष्टुमिच्छामि विघ्नेशं तदुपायं वदप्रभो प्रभो तवाज्ञावशगो भूत्वा चरिष्यामि विश्वामित्र उवाच प्राप्तं श्रावणमासं त्वं विद्धि गालवसौख्यदम् तत्रानुष्ठानभावेन गणेशं पश्यसिद्धिज एवमुक्त्वा ददौ तस्मै मन्द्रमेकाक्षरं मुनिः तं प्रणम्य महाविप्रं गालवस्तादृशे रथः श्रावणे गणपं ध्यात्वा पुरश्चरणतत्परः जजाप जजापमन्द्रराजं स विधियुक्तं विधानवित पयो भुक्त्वा गणेशानां तोषयामासलवः सदा ध्यानपरो भूत्वा चिन्तयत्तं महामदिः अमायां गणराजस्तु ययौ भक्तिनियन्द्रिदः सिद्धि बुद्धि युदो विप्रम् सिंहगः सर्वभावविद समागतम् समालोक्य गालवः प्रेमसंयुधः समुद्धाय प्रणम्यादौ पुपूज्य विघ्ननायतम् पुनः प्रणम्य सर्वेश्वम् तुष्टावस कृताञ्जलिः सा श्रुनेत्रो गणाध्यक्षम् सर्वसिद्धिप्रदायकं बालव उवाच अमेय मायामयरूपधारिणे मायाविहीनाय परात्परात्मने योगाय योगेश सुयोगदायिने विघ्नेश्वरायैव नमो नमस्प्रिया प्रिया विघ्नेशाय नमो नमः सिंहगाय चतुर्बाहुतारकाय सुरूपिणे स्वानन्दनगरस्थायिन् सदा स्वानन्दरूपिणे अनन्दविभवायैवम्बाय नमो नमः लम्बोदराय देवाय देवदेवेशरूपिणे असुराणां निहन्त्रे च असुराय नमो नमः सिद्धिबुद्धिविलासस्य कारिणे ब्रह्मरूपिणे ब्रह्माकारशरीरायैकदन्ताय नमो नमः सगुणाय नमस्तुभ्यं निर्गुणाय गुणात्मने सदा शान्तिप्रदात्रे धूम्रवर्णायते नमः पाशाङ्गुशधरायैकदन्ताभयप्रधारिणे नाभिशेषाय सर्वादौ पूज्यायते नमो नमः किं स्तौमित्वं गणाध्यक्ष यत्र वेदा विसिस्मिरे अदो नमनमात्रेण प्रसन्नो भव विघ्नप सूत उवाच एवं स्तुत्वा गणेशाम् ननर्तप्रेमविह्वलः धन्योऽहम् कृतकृत्योऽहमुच्चरंश्च पुनः पुनः तमुवाच गणाधीशो वरान्वरयगालव दास्यामि श्रावणस्यैव व्रतेन तुष्टिमागधः त्वया कृतमिदं स्तोत्रं भवेत् सर्वार्थदायकं पठदां शृण्वतां विप्र मद्भक्तिवृद्धिकारकं धनधान्यप्रदं पूर्णं भुक्तिमुक्तिप्रदायकम् आरोग्यादिकरं चास्तु ब्रह्मश्रद्धा एवमुक्त्वा गणेशानो विररामहामदे कालवस्तम् प्रणम्यादौ जगाद करसम्पुडः कालव उवाच भक्तिम् देहि त्वदीयां मे गाणपत्यम् कुरुप्रभो योगं शान्तिप्रदम् पूर्णं नान्यं याचे गजानना तथेदि मधोक्त्वा सौ गणेशोऽन्तरधीयत कालभक्भेदसंयुक्तो वियोगाद्गणपश्यतु तदो जगाम विप्रेन्द्रं विश्वामित्रं ननामसः वृत्तान्तं कथयामास सोऽपि संहर्षितो विश्वामित्र उवाच धन्योऽसि कृतकृत्योऽसि मान्योऽसि मे महामुने सच्छिष्येण त्वया पुत्र सरितोऽहं न संशयः प्रशंसिदो विप्रो विश्वामित्रेण गालवः तं प्रणम्यययौ सोऽपि स्वेच्छाचारी यथा तथा सदा गणपतिम्भक्रिया भज धनन्यचेदसा गालवो योगीवंद्य बूव पर गणेशा जगामासौ क्षेत्र गणपेर अन्दे मयूरक्षेत्रे वाचकार त्रव वा गणनाथ सो भजद भावसम क्षेत्रसंज्ञास विप्रैश्च पूजितो कथ इदं इदम् गालवमाहात्म्यम् कथितम् पापनाशनम् पठनाश्रवणात्सर्वसिद्धिदम् जन्धवे भवेद अन्यच्छृणु चरित्रम् यत्सर्वसौख्यकरम् मुने महाराष्ट्रेऽन्त्यज कश्चिच्छुच्छ्रावश्रावणस्य च माहात्म्यं गणनाथस्य भक्त्याश्रितं द्विजात्पुरा तत्र चित्तं समानीय गणराजपरो भवद आगते श्रावणे मासे स्नात्वा देवालये स्थितं नियमेनैव नित्यं भक्त्रिसमन्वितः तदस्व्यवासु कुटुबपोषणरद चकार पिविधान विधान कामोका द्रव्य स्रवणे मे मृद तम दिवगद प्रगृह्य गणपा जग मुस्वालय हर्ष मार्गे। सङ्गच्छतस्तस्याङ्गाद्वायुः सहसा ययौ पञ्चचौरशरीराङ्गे स्पर्श दैवयो गतः चौराणां बुद्धिभेदोऽध बभूवेत् तेन ते पुनः ऊचुः परस्परं चौरा परायणाः चौराऊजुः निम पाप सचारा व्यम चौर्यपरायण लोकेो दुखदापूर्ण का गदी भविष्य पापीना नरकेव गतिर्दुखतरा भवद यम सेदना त्र दुस्सहा संशय नरके वासिनो नित्यं भविष्यामो वयं यदः अतः परं न कर्तव्यं चौर्यं चौराकदाचन एवं निश्चित्यमार्गेते वनस्थे संस्थिता मुधा तत्राकस्मात् समायादा ब्राह्मणा दशतापसाः तान् दृष्ट्वा गोभिरानन्दसंयुक्तान् पापनिश्चयाः चौरा खड्गधरा यादा हन्तुं तां द्विजा जगुः द्विजा ऊचुः किमर्धं शस्त्रसंयुक्ताश्चौरा यूयम् समागताः गावो ग्राह्या सुखेनैव वयं गच्छामहे पुनः मा हिंसां कुरुदप्राज्ञा ब्राह्मणवध संश्रितां ब्रह्म हत्या भवं पापं वज्रलेप समं भवेद तेषां तद्वचनं श्रुत्वा चौरास्तान् खड्गधारकाः ऊचोर्नियम्य स्वात्मानं पापत्राः सभयातुराः चौराऊचुः पापं तत्कीदृक् यादनाप्रदं कनो पायेन पापानि लयं गच्छन्ति भोद्विजाः वयं पापसमाचारा जन्मादारभ्य नित्यदा नानाविधानि पापानि कुर्महे चाधुनावधिं चराम किं चौरास्तदर्थं पापनाशकम् उपायं तद्वदध्वं दयया ब्राह्मणोत्तमाः चौराणां वचनं श्रुत्वा ब्राह्मणास्तानधा ब्रुवन् विस्मिता लोकोदाराणा ब्राह्मण ऊचु अ पापे नश्य चौरनायका अतः परच पापन माचरध्व तदा किल श्रावणे गणनाध्व ब्राह्मनायकं। तेन पापविहीनाश्च गमिष्यध परां गतिं यवमुक्त्वा महाभागास्ताननुज्ञाप्यते ययुः ब्राह्मणा स्वाश्रमम् गोभिर्युक्ता हर्षसमन्विताः समीपे श्रवणम् आसं समागतं विलोक्यते गणेशमभजन् परम् स्नात्वा प्रादर्गणेशानं प्रणम्यभावसंयुधाः प्रदक्षिणपराः सर्वे प्रहरं ह्यभवन्मुने तेज एकभुजः सर्वे ब्रह्मचर्यपरायणाः मा समात्रम् व्रतम् चकृत्साधवस्ते बभूविरे इह भुक्त्वा किलान् भागानन्दे स्वानन्दमाययुः एवं नानाजना विप्रश्रावणे लेभिरे गतिं तेषां चरित्रकम्पूर्णं कथनेनैव शक्यते किञ्चिन्नियमयुक्तानां का कथाव्रतकारिणाम् ्रावण्हात्म्यं गाणपत्यप्रदम कथित मुनिशादूल सुखप्रदम शृणुयाच्र वेद्वा पढ़े स लभे पदम गाणेश भोगासमा ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते श्रावणमास माहात्म्यवर्णनं नाम त्रयस्त्रिंशत्तमोऽध्यायः ॐ